मुद्गलपुराणं खण्डं टु एकदन्तचरितम् अध्यायं फिफ्टि मदासुरविजयम् श्रीगणेशाय नमः गृत्समद उवाच शिवविष्णुवादिदेवेषु गृहीतेषु महाबलैः दैत्यपुत्रैः सुराणां च सैन्येत्रा सप्रवर्धितः देवा देवादेवगणाकेऽपिक्षदा भग्नास्तथापरि मृदा मुमोश्रवस्तत्र गृहीता दा दैत्यपैर्मृधे केचित्तान् शरणं जग्मुर्दैत्यान् केचित् पलायिताः शशं सुसर्ववृत्तान्तं शक्तये भयविह्वलाः वृत्तान्तमतुलं श्रुत्वा दैत्यानां कर्मसम्भवं क्रोधयुक्ता महामायाययौ सङ्ग्राममण्डलम् आगतां जगदम्बां ताम् स्वयं ज्ञात्वा मदासुरः पुत्रैः प्रधानमुख्यैश्च नाना वीरैर्वृदो ययौ समागतं महादैत्यं ज्ञात्वा क्रोधसमन्विता जगदम्बारणे तत्र धनुःसज्जमधाकरोद धनुषः शब्दमुग्रं ते श्रुत्वा दैत्या भयातुराः मोर्छेदा केऽपि भीताश्च दुद्रुवुः केऽपि दैत्यपाः ततः शङ्खनिनादं वै चकारसमदासुरः महदातस्य सर्वं जगत्रयं ततः शङ्खनिनादैश्च देवीनां पूरितं नभः दैत्येन्द्राणां च सर्वत्र महान् कोलाहलोह्यभूत् जगर्जुस्ते सिंहनादैर्जगर्जुस्ते वीरावैशक्रयस्तथा विनेदुर्बहुवाद्यानि सुराहर्षं समाययुः यदस्मिन्नन्तरे तत्र कालिका क्रोधसंयुता शक्तिभिः समृदाक्रूरा दैत्यसैन्यं ममर्दाह। त्रिशूलन तथा पाश्यस्त्रृधे शक्ति दैत्या पलायन दिशो दश तथक्रोधसमयुक्ता दैत्यपुत्र सुृषुर्बाण काल रूपयु तेषां बाणैर्हतास्तत्र देवानां चक्रयो गणाः हा हाकाररवा सर्वे पलायन्तभयाकुलाः ततःकाली समाक्रुद्धारूपं कृत्वा भयानकं जपान दैत्यसेनां तां समन्तात् प्रलयप्रभा गृहीतवा दैत्यपुत्राई बद्वा पाश मदा चिक्षिपुर्वरे संी साहवे तद क्रोधसमुगो मदद्य प्रतापवान्नुसज कृत्वा मोजश शरमुबणम संहारास्त्रान्महाघोरा तस्माज्जादो महाबलः पुरुषपर्वताकारशक्तीनां बुभुजे बलम् अस्त्रस्य तत्र ज्वालया पीडितारणे शक्तयश्च मृदा दग्धा दुद्रुवोर्यत्र निःसहाया भयोद्विग्ना काली मोख्या प्रदुद्रुवुः महामाया समीपेताः संस्थिताः सन् जगुः कथाः स्वयं शकृम् समागताम् सिंहारूढाम् सदाम् दृष्ट्वा दैत्येन्द्रप्रणनाम उवाचशक्तिं गर्वेण पूरितोऽसौ महासुरः देवां त्यक्त्वा जगन्मादरस्माकं पक्षमाश्रय नो चेत् त्वां कर्मणां देवीं हनिष्यामि न संशयः स देवां सपरिवारां पश्य पौरुषं महद तद क्रोधसमायुक्ताशूलं शिक्षेपवैरणे वधाय दैत्यराजस्य महामायाप्रभावतः त्रिशूलेनाह्दो दुष्टप्रह्लादनचालः मदासुरो जगर्जासावधिक्रोध युधो भवत शस्त्राणि सहसा त्यक्त्वा मल्लयुद्धाय दैत्यपह ययवशक्तिर्महद्रूपं कृत्वा प्रययुधेतदः न शक्यते वर्णयितुं युद्धं घोरं तयोर्महद बाहुभिर्हस्तपादैश्च प्रवृत्तं दारुणं परं परस्परं जयन्तौ तौ जल्पन्तौ साधु साध्विधि दिवसानि गदान्ये त्रीणि तत्रा सुरेश्वर वरदानबलेनैव तेन क्षीणबला कृता शक्तिस्त्वशक्तिरूपा च जादा कर्मप्रभावतः ममर्धदेहपादेन महाशक्तिं महासुरः मूर्च्छितां तां समादाय ययौ हर्षसमन्वितः अन्याश्च शक्तयस्तेन धृता काश्चित् पलायिताः हाहाकारश्च सर्वत्रा भवच्छक्तिबले महान् दैत्येन्द्रो वारयामासशक्त्रीणां कदनेरदान् उवाच कुलदेव्यश्च शक्तयो न संशयः तद मदाण मोचिता स्वुदास्त्र प्रधाना दैत्या धृता दें वैरा शक्तिलोक सामसाध्य मदसुर भोगाश विविधुजे ज्यादा सह नममर्ष निजात्मानमोहिदो दैत्यनायकः स्त्रीमांसं मदिरासक्तप्रभभूवासुरेश्वर तदशक्तिं समानीयो वाच गर्वसमन्वितः देवैः सह महाशक्ते गच्छ यत्र च तदेरुजिः उवाच मोहिदो वाक्यं शिवागीन् समदासुरः गच्छन्तु यत्र कुत्रापि ममाज्ञा वशगासुराः शक्तिं प्रणम्य दैत्येन्द्र उजिवान् भक्तिसंयुतः अस्माकं पक्षमाश्रित्य वसत्वं पूजिदामया मया ततस्थं शक्तिराधृत्यो वाजम्लानमुखश्रिया देवैः सह यत्र कुत्र ततस्तां दैत्यराजस्तु मुक्तवान् गर्वमोहितः अनादृत्यमहामायां सा गदा देवसंयुता वनेषु गिरिदर्यां च संस्थिता भयसङ्कुला देवैः सह जगन्मादा निःसृदा दारुणाद्भयात् दैत्योपि दैत्य दैत्यपैस्तत्र संवृदो भुभुजे सुखं शक्तिलोकभवं वीरकर्मणा निर्मिदं परं तदो बाणादयस्तेन भवंश्च स्थापिता सुताः देवानां च पदे मुख्या शक्तिलोके तधा कृताः पृथिव्यां नगरे दुष्ट आययौ स विलासदे त्रिलोकस्य राज्यं चक्रे मदासुरः ततः पादालविवरे प्रशयामास दैत्यपः त्रिपुरं शेषनागेन्द्रजयनाय महाबलं शेषो ज्ञात्वा जवृत्तान्तं सामचक्रे पुरैव दैत्येन वार्षिकं भाङ्गं ददौ जग्राहशासनं एवं मदासुरो दुष्टो जित्वा ब्रह्माण्डमण्डलं राज्यं चकार सर्वेषां भुवनानां प्रतापवान् अनुत्तमान् विचित्रांश्च देवादीनां सुदुर्लभान् भोगान् सर्वान् स बुभुजे जादी सह ओं तत्सदिश्रीमदांदे पुराणोपनिषद्रीम्न्मौले महापुराणे द्वितेकदचि नाम पंचाश्त ओं